अथ द्वादशम् दशकम् स्वायम्भुवो मनुरथो जनसर्गशीलो दृष्ट्वा महीमसमये सलिले निमग्नम् स्रष्टारमापशरणम् भवदङ्घ्रिसेवा तुष्टाशयम् मुनिजनैः सह सत्यलोके कष्टम् प्रजा सृजति मय्यवनिर्निमग्ना स्थानम् सरोज भव कल्पय तत्प्रजानाम् इत्येवमेष कथितो मनुना स्वयम् भूरम् भोरुहाक्षतवपादयुगम् व्यचिन्तीत् हाहाविभो जलमहम्यपि बम् पुरस्ताद्यापि मज्जति मही किमहम् करोमि इत्थम् त्वदङ्घ्रियुगलम् शरणं यतोऽस्य नासापुटात् समभवः शिशुकोलरूपी अङ्गुष्ठमात्रव पुरुत्पतितः पुरस्ताद्भूयोऽपि कुम्भिसदृशः समजृम्भथास्त्वम् अभ्रे तथाविधमुदीक्ष्य भवन्तमुच्चैर्विस्मेरताम् विधिरगात्सहसूनुभिस्वैः कोसावचिन्त्यमहिमा किटिरुत्थितो मे नासा पुटात् किमु भवेदजितस्य माया इत्थम् विचिन्तयति धातरि शैलमात्रः सद्यो भवन् किल जगर्जिथ सत्यस्थिताश्च मुनयोनुनुवृत् तत्स्तोत्रहर्षुलमनाः परिणद्य भूयस्तोयाशयम् विपुलमूर्तिरवातरस्त्वम् ऊर्ध्वप्रसारि परिधूम्रविधूतरो मा प्रोत्क्षिप्तवालधिरवाङ्मुखघोरघोणः तुर्ण प्रदीर्ण जलदः परिघूर्ण दक्षिणा स्तोतृन्मुनीन् अन्तर्जलम् तदनुसङ्कुल नक्रचक्रम् भ्राम्यत्यमिङ्गिलकुलम् कलुषोर्मिमालम् आविश्य भीषण रवेण रसातलस्थानाकम्पयन् अभ्युद्धरन्नथः धराम् दशनाग्रलग्नमुस्ताङ्कुराङ्कितैवाधिकपीवरात्मा उद्धूतघोरसलिलाज्जलधेरुदञ्चन् क्रीडावराहवपुरीश्वर पाहिरोगात् दशकम्